गणेशपुराणं क्रीडाखण्डम् अध्यायं नैण्टि टु क उवाच तदः कदाचिद्गिरिजा प्रादश्नात्वा त्वरान्विदा सुप्ते बाले चतुर्वर्षे लिङ्गपूजां चपारसा वामहस्ते निधायैव पार्थिवीं मूर्तिमुत्तमाम् स उद्धाय रुदं स्तन्यम् ययाचे हठतत्परः क्षणम् तिष्टक्षणम् तिष्ठेत्येवम् माधान्यषेधयद सरुषा पादयन्मूर्तिम् तद्धस्ताद्धस्तधाखदः तं च साहस्तखादेन जखानदृढरोषधः सरुषा पुनरागत्य ददं शाङ्गुलिमुल्बणम् मुञ्जमुञ्ज पपालदूरदोर्भकः अस्रवध्रुधिरं तस्या अङ्गुलेर्बहुलम् भुवि यथा क्षीरकर्म वृक्षा पीडिताद तदयष्टिं समाधाय ताडितुं सा सुदं ययौ धावयित्वा दधारयिनं ददर्श शिवरूपिणं पञ्चवक्त्रं दशभुजं त्रिनेत्रं शेषशोभितम् त्रिशूलं दमरुं च बिभ्रदं। वसानं चर्मणि हस्तिव्याक्रयो शशिशेखरं दृष्ट्वेर्धं लज्जिता यष्टिं तत्या जाधो मुखी शिवा पुरो वा मन्दिरं वापि गन्तुं सा तदा तच्चिन्तां सपरिज्ञाय बभूवार्भकरूपवान् क्रीडते मुनिपुत्रेषु मुनि बालस्वरूपवान् अन्वया गिरिजाबालं नापश्यते श्रुतं सुतं पप्रच्छतान्मुनि सुतान् मम बालकुतो दृष्ट्वाङ्गुलीं मदीयां तु पपालचपलोर्भकः त उ चूर्मुनिपुत्रास्तामिदो यादोर्भगस्तव तदो जगामगिरिजापुरदः च विशीर्णकबरीभाराश्रमकर्मसमन्विता इतस्ततो धावमाना स्रस्त सवस्त्राञ्जला शिवा तस्याश्रमं सविज्ञाय ययौ पूर्वस्वरूपवान् तदन्तिकं दधारयिनं हस्ताभ्यां गिरिजादृढं स्वीयाञ्चलेन तद्ध्वा ययौ हृष्टा स्वमन्दिरम् उवाच रोषात् सम्यक् त्वं मम हस्ते समागतः अपस्मारादिचपलमारयिष्येऽधुना भृशं शम्भवो वा निवेदिष्ये स त्वां वा ताडयिष्यति श्रुत्वेद्धं वचनं मा दुर्लुलुण्ठधरणीतले निःसृतं बन्धनं ज्ञात्वा पपालत्वरया पुनः पुनर्धावधि सा पृष्ठे दुःखिता दुष्टो दानवः कर्दमासुरः द्विजरूपधरो मालां दधानो दक्षिणे करे कमंडल वारीपूर्णम भस्मोदूलितग्रह अरुणाक वस्त्रे वसानो मयिको बालं सऊचे वचनम बालंकम पलायसेम सध्य क्येहं न संशय नेष्ये त्वां मादा न जानीयात्कथञ्चन न च कालभयं तत्र न चान्यद्भयमन्वपि क उवाच तमोवाजार्भगोभिदस्तथा कुरु यथा मम एवं वदति बालस्वभावदः गिगिल तावदेव सौ तं दुष्टकर्दमासुरः रम्भाफलस्य पक्वस्य खण्डं कोमलमर्भकं तत्पादपद्मचिह्नानि भौमौ दृष्ट्वा ययौ शिवा द्विजं ददर्श पुरदो पृच्छत्तं च तदोर्भकं स्वामीं त्वया मम सुत इदो गच्छन्निरीक्षितः इमानि पदपद्मानि चिह्नयुक्तानि पश्य भोः इदानीं धावमानः स भवद्विज तदस्तामब्रवीद्विप्रो दुःखितां तद्धियो गतः द्विज उवाच किन्नः प्रयोजनं मादस्तनयेन तवानके उदासीनतया मादस्तिष्ठदामीशचेतसा तथापि नैव दृष्टस्तेतन ह्यक्वाभिशैलजे तन ह्यः किं त्वया देवि मदधीनः भवद क उवाच एवं वदति तस्मिंस्तु दुःखितां वीक्ष्य शैलजाम् आविरासिर्निर्विकारस्तन्मुखात् स गुणेश्वरः सा दृष्ट्वा कथं मिथ्या तवैव पुत्रो दृष्टोऽयं गोपितस्त्वया सन्दः प्राणात्यये प्राप्ते न नृतं क्वचित् क उवाच इति तस्या वच श्रुत्वा स दैत्यो ततः ततः सा पृष्टदो लग्ना क्रन्दीतनयम् शिवा गुणेश्योऽपि तदो दध्रे तस्मादीर्घन्तरम् वपुः दृष्ट्वा दुःखम् जनन्यास्तु प्रशोचन्द्यामुहुर्मुहुः तद्देहम् शधता कृत्वा चुचूर्णाङ्घ्रिविखादः पदमानोऽपि तद्देहश्चूर्णयामास शाकिनः जनन्या अग्रतस्तस्थौ संहृत्यैवं तु दानवं मुनयो देवास्तत्पन्योदसमागताः ऊचुस्तां पार्वतीं विध्ना कियन्तोऽस्य भवन्ति त एव नाशमायान्ति तव पुण्यात्सुरेश्वरी सर्वैस्तैपूजितं बालं गृहीत्वा स्वकडाशिवा गृहं जगामत्तैस्ताभिर्हर्षनिर्भरमानसा पुरामरगणाञ्जित्वा गरुत्मानमृदं यथा उत्ततारशिवा बालं स्वाङ्गणे कडिदेशतः सदुमूर्च्छागतो लुण्ढन्धरण्यां च पुनः पुनः वारं वारं ददौ जृम्भां प्रसार्य किम् जाद जातमधुनैवास्य धावयित्वा ययौ शिवा मुखमध्ये ददर्शास्य विश्वं विश्वस्वरूपिणः सप्तद्वीपाम् वसुमधीं पुरग्रामवनाकरान् ब्रह्माणं भास्करं शेषं विष्णुं पर्वतसागरान् गन्धन्वाण्यक्षरक्षांसि मुनिपक्षि गणानपि नदीवापी तडागानिमनुनश्च तौ वसूनपि शशि सूर्यानलोडूनि सचेतनमचेतनं पादालन्यविसप्तानि स्वर्गानप्येकविंशतीन् एवं त्रिभुवनं दृष्ट्वा मुमूचोर्चगिरिजा तदा निमील्यनयने भ्रान्ता मुहूर्ताद्वयमास्थिता शिवं सस्मारमनसा सावधाना तदोभवद यथा पूर्वस्थितं बालं पश्यति स्म पुरस्थितं तदस्तं परिदुष्टाव तत्प्रसादप्रसन्नधीः पार्वत्युवाच परमात्मा त्वमेवासि चराचरगुरुर्भवान् चिदानन्दकनो नित्यो नित्या नित्यस्वरूपवान् त्वत्कुक्षौ परिदुष्टानि भुवनानि च दुर्दश देवा यक्षाश्चरक्षांसि सरितो वृक्षसञ्चयाः सर्वं चराचरं दृष्टं मया वक्तुं न शक्यते भ्रान्ताहं पतितं भूमौ सावधाना शिवस्मृतेः जाताहं बालरूपेणा पश्यं प्राकृतं शिशुं क उवाच एवं स्तुवत्यां मायामाविश्चकारसः लालयित्वा कडौ गृह्यस्तनपानं ददौ शिवा गृहं प्रविष्टा गिरिजा गृहकार्यरता भवता मुनयो मुनिपत्न्यश्च स्वं स्वं निवेशनम् इदमाख्यानकं श्रुत्वा सर्वपाय प्रपुच्यते इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम द्विनवतितमोऽध्यायः